ोऽध्यायः द्वितीयो भाग द्वितीयोभागः एकवर्षममेरिकपालिकाप्रदेशे न्यवसत् पुनः पर्वदेशान् प्रतिस्तामी समारे निवर्तनम् विदेशे लग्न आसीत् स यदा विविधकर्मसु अन्तर्मुखमनोभावस्तदा तस्मिन् विलोकितः द्विवत्सरमितं कालं मित्रेभ्यो लिखति निजचित्ते वर्तमानां वृत्तान्तां वेदनां प्रति कञ्चिनाद्वैतवादि सभाषिदृष्ट्याभवत् खलु अन्तरे मृदुचित्तः स आसीदेव निरन्तरम् प्रत्यागच्छेत् स नैवेति चिन्तयित्वा हिमालयम् पूर्वं प्रयातवान् किन्तु किं जातं तदनन्तरम् साहाय्यं विश्वं मृत्येभ्यो दातव्यम् इति चिन्तयन् धनसम्पादनार्थं स विदेशं गतवानपि वाञ्छिता स्वामिना शान्तिर्लेभे किन्तु स नैव ताम् अतियत्नस्तुकर्तव्यषोढव्यायाति न तथा तदीयं भागधेयं तदित्येवं तेन चिन्तितम् विदेशवासकालेऽपि स्वस्थदेहस नाभवत् केचिद्विशेषशिष्यात्मत्यजन् भिन्नहेतुभिः एतैः सर्वैः स्वामिवर्यो नितरां तप्तमानसः एतस्मिन् कर्तव्यं पूर्णमित्यपि स्वामिवर्यस्य हृदये बोधो जात कदाचन प्रत्यागन्तुं विदेशात् स सा पत्रं लिलेखकस्मै चिच्छिश्चाय सैदं प्रति गङ्गातिरेव निर्मातु कुटिमेकां शैष्ठवान् स तत्र निवसे चापि समात्रासहितं तथा मम हेतुर्वरा की सा सेहे क्लेशाननेकसः तां मोदयितुमिच्छामि तदीयान्त्यदिनेष्वम् कृतवान् शङ्कराचार्य इदमेव पुरा समातुरन्तिमाहसु स गतो मातिसन्निधिम् ससैवाहं च सेवेय भवेयं च समाहितः निजपद्धतिमद्यस्य सा असूचयत। सामे सा मे भवितुमारेभे नष्टोस्साह स्वकर्मणे एकाकीच च स्वतन्त्रः स इत्येवं तेन चिन्तितम् स्वकीयलौकिकं कार्यं समाप्तम् इति तन्मतिः प्रकाशः परलोकस्य तद्दृष्टिपथमागतः मृतो निगूह्यतुमृतं तं मामेवानुगच्छतु आशृणोन् गुरुदेवस्य शब्दानेतान्दृशां सु च उत्तरं स्वामिना दत्तम् प्रभो एवं सत्यपि तत्कर्म भुविपूर्णं न शोकरोत् डेटो हि द्वत्तनं स्वामी प्रयातस्तदनन्तरम् पारिसो नाम नगरं नौ नौकया गतवान् ततः धर्माणामितिहासस्य विषये तत्र मेलनं संवृतं सा तस्मिन् भागं गृहीतवान् न कोऽपि मुख्यविषयो मेलनेऽस्मिन् निरूपितः विधिक्रमा हि धर्माणाम् एव तत्र विचारिताः अस्वास्थ्यहेतुना स्वामी केवलं दिवसत्रयं स्वस्याशयान् पुरस्कृत्य कृतवान् तत्र भाषणम् यदा नगरे निवासं कुरुते स्म सः स्वामी परिचितो स्वामी वैज्ञानिकधर्मविदः मुख्यपौरजनास्ततः प्राध्यापकाः कलाविदः सर्वे ते स्वं भवन्नपि आसीत् स्वामी यदा तत्र प्रयत्नं कृतवान् स च तत्रत्यभाषमां भाषामध्येतुं ज्ञातुं तस्संस्कृतिं युरोपस्थप्रदेशेषु विविधेषु स्थलेषु च मित्रैश्च शिष्यैः सहितं भ्रमणं च च का स चकारवै नानासंस्कृतधर्माणां विषये विस्तरेण सह यात्रिकैः सहितं संलापम् अकरोदपि तत परम स्वामीवर्ो गुर्विशा अनतको नगर शिष्य आगता त्रतकोच कागारम दृष्टि स म मुदिभवत अन्याच घटना का जाता रसात्मकाध्ये तस्ता पूर्वबोधस्तु कशन हिमालये वर्तमानं शिष्यं सेविसम् परं प्रतीम् सत्वरं भारतं गन्तुं स्वामिवर्येण निश्चितम् एकशंसगतश्चापि मुम्बैनोकया क्षणान् युरोपस्थप्रदेशेषु भ्रमणं सपदाकरोत् विरक्तस्य मनोभाव स्वामिवर्ये निरीक्षणः दीर्घकालं न जीवेत स इत्येवं लिखितं जपि स्वामिना प्रेषिते पत्रे स्वशिष्याय कदाचन मठसम्बन्धकार्येभ्य सर्वेभ्यो मुक्तिमर्जितुम् एतस्मिन् कालमध्ये स आसीदन्त्यन्तमुं तमुत्सुकः यदा पास्यात्यदेशान् यदा पास् पास्यात्यदेशान् स प्रथमं गतवान् तदा परिवर्तितं तदपि सर्वान् सन्न्यासिन प्रती स्वामित्वं मठसम्पत्या प्रथमं तस्य नाम्न्यभूत् तान् प्रति स्वामिवर्यस्य चित्ते जातं शक्ति संघटना कम तथा प्रजातंत्र संवेक्ष्य सकृष्टोसृष्ठे किंचिदन ददर्शस लाथबुद्धिस् प्रभुच्छा तत सि भृद्यो जोगी सङ्घेन ग्रस्ता अल्पकवाणिजा स्वामी सज्जो विधातुं तु स्तुतिं सङ्घस्य कस्यति लावण्यं कीदृशं किन्तु वृक्वृन्देव तिष्ठते इत्येवं पृष्टवान् स्वामी निजशिष्यं कदाचन तत्र वर्गस्य धर्मस्य वर्णस्य विषये विवेचनं प्रति स्वामी शिष्यां काञ्चिद् असूचयत् यज्जीवनं स पश्चात्त्यप्रदेशेषु व्यलोकयत् नरकोपमस्तीति स्वामिवर्येण भासितं युरोपो वर्तते नूनम् आग्नेयगिरिशीमनि अध्यात्मिं दस्रोत्स बन्धिं विना सेतुमर्हति नहि चेत् स्फोटनं तस्य भविष्यति यदा कदा इत्येवं स्वामिना प्रोक्तम् अन्यस्मिन् समये ह्यपि परिवर्तनं विपुलं चीनारबप्रदेशयोः उद्भवेन्धाविनीत्येवं स्वामिनाग्रे निरूपितम्